मार्कण्डेयपुराणम् अध्यायं 125 अण्ड् ट्वेन्टिफैव् मरुत्तचरित्रवर्णनं मार्कण्डेय उवाच ततःसराजपुत्रस्तमादाय दयितं सुदं पत्नीं चानुगधो विप्रगन्धर्वैरायय य उपुरम् स पितुर्भवनं प्राप्य भवन्ते पिदुरादराद् चरणौसाजतन्वङ्गी श्रीमदी नृपदे सुधा तथाह राजपुत्रोऽस्सौ गृहीत्वा बालकं सुतं धर्मासनगतं भूपं राज्ञां मध्ये करन्धमम् मुखं पौत्रस्य पश्यैददुत्सङ्गस्थस्य यन्मया किमिच्छगे प्रतिज्ञातं तुभ्यं माधुकृते पुरा इत्युत्युक्त्वा पितुरुत्सङ्गे तं यथा वृत्तमशेषं स कथयामास तस्य तद् सपरिष्वज्य तं पौत्रमानन्ताश्राविलेक्षणः सभाग्योऽस्मीत्यथात्मानं प्रशशंस पुनः पुनः ततः सौर्ख्यादिना सम्यग्गन्धर्वान् समुपागतान् सम्मानयामा समुदा विस्मृतान्यप्रयोजनः ततः पुरे महानासीदानन्दः पौरवेश्मसु अस्माकं सन्तधिर्जादा नाथस्येदि महामुने हृष्टपुष्ठे पुरे तस्मिन् गीतवाद्यैर्वराङ्गनाः विलासिन्योदि चार्वङ्ग्यो नानृ दुर्लास्यमुत्तमम् राजा च द्विजमुख्येभ्यो गावो वस्त्राण्यलङ्कारा न ददाधृष्टमानसः ततः ववृधे शुक्लपक्षे यथा शशि पितॄणाम् प्रीतिजनको जनस्येष्टश्च सोऽभवद आचार्याणाम् सकाशात्सप्राग्वेदाञ्जगृहे मुने तदश्शास्त्राण्यशेषाणि धनुर्वेदं ततः परम् कृतोद्योगो यदा सोऽभूद्घट्गकार्मुकर्मणि अन्येषु च तथा वीरशस्त्रेषु विजितश्रमः ततोऽस्त्राणि स भार्गवाद्भृगुसम्भवाद् विनयावनतो विप्र गुरोः प्रीतिपरायणः गृहीतास्त्रकृतिवेदे धनुर्वेदस्य पारगः निष्णातः सर्वविद्यासु न बभूव ततः परः विशालोऽपि सुधा वार्तामुपलभ्य किल हर्षनिर्भरचित्तोऽभूदौहित्रस्य च योग्यताम् अधराजा सुतसुतं दृष्ट्वा प्राप्तमनोरथः यज्ञाननेकान्निष्याद्यदत्वा दानानि चार्थिनां कृतशेषक्रियो युक्तः सवर्णेर्धर्मतो महीम् परिपाल्यारि परिपाल्यारिविजयी बलबुद्धिसमन्वितः स इया सुर्वनं पुत्रमवीक्षितमभाषद पुत्र वृद्धोऽस्मि गच्छामि वनं राज्यं गृहाण मे कृतकृत्योऽस्मि नास्त्यन्यत्किञ्चित् त्वदभिषेचनाद् सुनिष्पन्नमदो राज्यं त्वं गृहाणमयार्पितम् इत्युक्तः पितरं प्राकः सो विक्षिन्नृपनन्तनः प्रश्रया वनदो भूत्वा यियासुस्तपसेवनं नाकं तादकरिष्यामि पृथिव्याः परिपालनं मनसि राज्येयं त्वं नियोजय ता तेन मोक्षितो बद्धो न स्ववीर्यादहं यदः ततः मे पुरुषायः पाल्यते मही योऽहं न पालनायालमात्मनोऽपि वसुन्धरां स कथं पालयिष्यामि राज्यमन्यत्र विक्षिप स सधर्मा पुरुषो यश्चान्येनावदृह्यते आत्मा मोहाय भवदा बन्धनाद्येन मोक्षितः सोकं कथं भविष्यामि स्त्री सधर्मा महीपतिः स्त्रियः पुमान् भवेद्भर्ता यशोरः स महीपतिः पितो वाच न भिन्न वा पुत्रस्य पिता पुत्रस्तथा पितुः नान्येन मोक्षितो वीर यस्त्वं पित्रा विमोक्षितः पुत्र उवाच हृदयं नान्यथानेतुं मया शक्यं नरेश्वर हृदये ह्रीर्ममातीव यस्त्वः मोक्षितस्त्वया पित्रोपास्तां श्रियं भुङ्क्ते पित्रा कृच्छ्रात्समुद्धृतः विज्ञायते च यः पित्रा मानवसोऽस्तु नोकुले स्वयमर्जितवित्तानां ख्यातिं स्वयमुपेयुषां स्वयं निस्तीर्णकृच्छ्राणां या गदि सास्तु उवाच इत्याह बहुशः पित्रा यदाप्युक्त्वाप्यसौ मुनेः तदा तस्य सुदं राज्ये मरुत्तमकरो नृपः सपित्रा समनुज्ञातं राज्यं प्राप्य पिता महाद् चकार सम्यक् सुहृदामानन्दमुपपादयन् राजा करन्धमश्चापि वीरमादाय तथा वनं जगाम यद वा कायमानसः तत्र वर्षसहस्रं स तपस्तप्त्वा सुदुश्चरं विहाय देहं नृपदिश्शक्रस्याप सलोकताम् सास्यपत्नी तदा वीरा वर्षाणामपरं शतं तपश्चचारविप्रर्षे जटिलामपंगिनी सालोक्यर्तुस्वर्गत महात्म फलमूल श्री संश्रया द्विजाधिपत्मध्यस्थशुश्रूषणा यीमाकंडेयपुराणे चरिते, पञ्चविंशत्यधिकशततमोऽध्यायः ओ